प्रवाचिका सुषमा कुमारी जम्मू जम्मूनगरे अन्ताराष्ट्रिय सीम्नि पाकिस्तानीय सैन्यबलै गोलिका वर्षणे सीमा बलस्य वीरौ वीरगतिं सम्प्राप्तौ एकादश जनाश्च आहता भारतदेशेन स्वदेशे निर्मितं परमाण् सक्षम वैलेस्टिक प्रक्षिप्यास्त्रस्य अग्नि पंच इत्यस्य सफलं परीक्षणं ओडिशा तटात् विहितम् कर्णाटक महाराष्ट्रे च वृष्टिसम्बद्ध द्र्घटनास् न्यूनान्यूनं द्वादश जना विदेशमन्त्री सुषमा स्वराज ब्रिक्स देशीय विदेशमन्त्रिभि साकं संजातोपवेशनात् प्राक् दक्षिण अफ्रीकीय शीर्षनेतृभि सम्भाषणं विधास्यति जम्मूनगरे अन्ताराष्ट्रिय सीम्नि पाकिस्तानीय सैन्यै भीषण गोलिकावर्षणे अद्य सीमासुरक्षाबलस्य वीरौ द्वौ वीरगतिं प्राप्तौ रक्षाकार्मिकं समेत्य एकादश जना आहता हा जाता सीमासुरक्षाबलस्य सूत्राणि आकाशवाणी सूचिता यत् पाकिस्तानीय सैन्य भटै परगवाद का अकारण गोलिका वर्षणं परीक्षा भारतदेशेन स्वदेशे विकसित परमाण् क्षमतायुतस्य बैलिस्टिक प्रक्षेप्यास्त्र पंच इत्यस्य सफलं परीक्षणं विहितम् इदं ओडिशा तटे अब्दुल कलामद्वीपात् प्रात पञ्चाशत् मिनटोत्तर नववादने वादने विहितम रक्षानुसंधान विकास प्रक्षेप्यास्त्रं पञ्चसहस्र किलोमीटर यावत् पृथ्वीं मार्क विद्यते पंचाशत् टन भारवाही इदं प्रक्षेप्यास्त्रं वर्तते मुम्बय्यां महाराष्ट्रस्य बहुस् क्षेत्रेष् प्रावृट् कालिकी भीषण वृष्टे सप्तजना मृता चत्वार जना धुले जनपदस्य एकस्मिन् ग्रामे वर्षा झंझावातेन वृक्षापपात च मृता सूच्यन्त पालघर रत्नागिरी जलगांव बुलठाणा नासिक अहमदनगर मराठवाडा क्षेत्रस्य अन्येष् जनपदेष् अपि भीषण वृष्टे सूचनाधिगतास्ति शस्य भवनानां क्षते सूचनापि सम्प्राप्तास्ति कर्णाटक अपरात्र कर्णाटक राज्ये भीषण वृष्टे गत चतुर्विंशति होरास् न्यूनान्यूनां पञ्चजना मृतावरण पर्यावरण मन्त्रिणा डॉ हर्षवर्धनेन विद्यालयीय छात्रा पर्यावरण रक्षारूपेण प्लास्टिक प्रदूषण समस्यां सम्मुखे सम्मुखीकर्त् प्रशासन समाजस्य च सहयोगाय समाहता डॉ हर्षवर्धन अद्य नवदिल्ल्यां पर्यावरण संरक्षण सन्देशाय समायोजितायां धावनक्रीडायां भागमावोध् एककृतान् दश सहस्राधिकान् छात्रान् सम्बोधयति स्म धावनक्रीडा अयं भौमवासरे समायोजयिष्यमाण विश्व पर्यावरण दिवसोपलक्ष्ये आयोजितास्ति विदेशमन्त्री सुषमा स्वराज दक्षिण अफ्रीकाया यात्रारतो विद्यते यात्राया प्रथमचरणे सुषमावर्या दक्षिण अफ्रीकाया शीर्ष नतृत्वै सम्भाषिष्यता श्रीमती स्वराज श्व ब्रिक्स दर्शि विदेशमन्त्रिभि साकम् उपवेशनं विधास्यति सा इबसा इत्यस्य विदेशमन्त्रिणाम् उपवेशनस्य अध्यक्षतामपि करिष्यति अल्पसंख्यक कार्यमन्त्रिणा मुख्तार अब्बास नकवीना यत् केन्द्रस्य राष्ट्रिय जनतान्त्रिक संयुते प्रशासनं समावेशि निष्पक्ष गौरवमयी विकासं प्रति कृतसंकल्पो विद्यते प्रशासनस्य चत् वर्षपूर्त्यवसरे अद्य पणजी नगर्यां वार्ताहर सम्मेलने तेनोदीरितं यत् प्रधानमन्त्रिण नरेन्द्रमोदिन नेतृत्वे केन्द्रप्रशासनं परिष्कार निष्पादन परिवर्तन मार्ग सरति अमरिका दर् प्रतिपादितं यत् उत्तर कोरिया दर्शि तदैव प्रतिबन्धेभ्य शैथिल्यं प्रदास्यति यदा परमाण् निरस्तीकरणदिशि विदध्यात् यस्याम् अन्वीक्षणं भवित् शक्यता रक्षामन्त्रिणा जिम् वर्येण अमेरिकी राष्ट्रपते डॉनल्ड ट्रम्प उत्तर कोरियाया नेत् किम जांग उन वर्ययो मध्ये सम्पत्स्यर्माणोपवेशनात् प्राक् अद्य सिंगापुरे सुरक्षोपवेशने इदं सूचितमस्ति उपराष्ट्र अद्य प्रथम आधिकारिक द्विचक्रिकादिवसोऽस्ति उपराष्ट्रपति उपराष्ट्रपतिना एम वेंकैया नायड्ना नवदिल्ल्यामद्य द्विचक्रिका कार्यक्रम प्रारब्ध